दे प्रजापतेरभ्यसृद्यन्ता दे तान देवाश्चासुराश्च दे। दे। तान्नभ्यजानात् इमेति स देवानपुंशो न करोत् तानभ्यशुणोत् तान् पवित्रेणापुनात् तान्परस्तात्पवित्रस्तब्दग्रन्थान् हे ग्रहाग्रहाणाम् तान ग्रहत्वम् देवतामानेता यजमानस्य गृहे लिख्यन्ते यद्ग्रहाः विदुषेण देवाः यस्यैवम् विदुषये ते ग्रहा लिख्यन्ते येषामेषामस्याहुधिः यदुपाकुंशः सोमेन देवायस्तर्पयाने लिखनु सोमेन यजते यदुपाकिंशम् जहोति सोमेनैवर्पयति यद्ग्रहा जहोति देवानेव तद्देवान् गच्छन्ति त्यमथा ते नैवानुरूपेणस्वर्गम् वा गमेति किम् एतदग्राहीरित्याहुः अर्पात्राणीति यम् वा एतदग्राहीर मर्मया इव एतान्यासन् तेवान् ते व्यामदमगच्छन् सेतानिधामया इव प्रान्यपश्यन् तान्यकुर्वैर्वेदे व्यापदमगच्छन् निभात्राणि भवन्ति व्यापतमेव ते किलबालागच्छति यानि दारुमया निभात्राणि भवन्ति अमुमेवदैर्लाकमभिजयते यानि मन्मयानि इमेवदैलाकमभिजयते ब्रह्मवाविना वदन्ति काष्ठदस्य स्थाने अन्वायव्याः सामग्रहने एता वै दृष्ट्यमनप्रस्यादेते स्तना आसन् ज्ञान् वे पृष्टेः कामादित्या आदित्यस्थाल्या चतुष्पदः पशोदस्तरन् यदादित्यस्थाले भवदे चतुष्पदेवतया पशोन इजमान इमान्द्विः तामिन्द्रमुक्षाल्येन्द्रियमदुहदे यदुच्छाले भवते इन्द्रियमेवतया इजमान इमान् दुः श्वे देवाः घ्रेण स्थाल्याक्रन् यदाः क्रेण स्थाले भवति ऊर्धमेवतगायमान इमाम् दुहे ताम् मनुष्याः ध्रुवस्थाल्यायुरदुःख्रान् यद्ध्रुवस्थाले भवति आयुरेवत दुहे स्थाल्या गृह्णाति बालव्येण तस्मादन्ने पात्रेण पशोम् दुहन्ति अन्येन प्रतिगृह्णन्ति अथो व्यापदमेवजमालो गच्छति विभगुम् सुरामश्मिना वा सुरेभस्पति इन्द्रम् कर्म स्वापदम् पुत्रमिव वितराश्मिनोभा इन्द्रावदम् कर्म नादुम्सनाभिः यत्सुरामम् व्यपि पश्यतीभिः सरस्वते तामघवन्नभेष्णात् अव्यग्ने हविधास्ये सुजैव घृतम् च मोयि वसोमः बृहन्तम् यस्मिन्नश्वासविभातमुक्षणः असा मेषा अवसृष्टा स आहुताः किया न मेषामृष्टाय मेधले मातरम् दक्षाथा सुरात्मसिमणे सोमनेधः मामाहिकंसे स्वाय्यानिमाविषन् यदत्र चष्टकौ रसिनः श्रुतस्य यदिन्द्राक्षतीभिः अहन्तरस्य मनसा शिवेन सोमगौ राजानमिन भक्षयामि द्वे स्तुते अथ नवम् अहम् देवानामुदमत्यानाम् ताभ्यामिदम् विश्वम्भुवनकम् समेते अन्तरापूर्वमपरम् यस्ते देववर्णगायत्रच्छन्दास्पाशः अन्तरेतेनावहिरे यस्ते देववरुणप्रष्टुप्न्दास्पाशः अन्तरेतेनावहिरे यस्ते देववर्णनकलीच्छन्दास्पाशः तन्त्रेतेनावयदे सो भगवानेतस्य राज्यमादत् यो राजा सन्धराज्यो वा सोमे रते देवसु वामेतानि हवेकं शि भवन्ति एतावन् भो मे देवानागम् समाः अयेवास्मै सभान् प्रयच्छन्ते अयेन पुनः स्वमन्ते राज्याय देवसो राजा भवति इन्द्राय गम्बे भागम् मित्राय वरुणाय चिभोत्रे यम् वा एतस्य निषेधते यस्यात्रे निषेधते तामुत्थापयेत् उदस्थाम् वै देव्यमेवास्मामुत्थापयते दे। दे। आयुल्यज्ञमदावधादित्याह आयुलेवास्मिन् दधाते निन्द्राय के भागम् मित्राय वरुणायजयज्ञाः रथायजरेवैत अवर्त्यम् वा एभेतस्य पाप्मानम् परीक्षाय निधेदति यस्याः ज्ञः कृपदृष्टानिषेधते तस्यान् धन्नाज्ञात् अवर्त्यमेवास्मिन् पाप्मानम् प्रतिमुञ्चते दग्भाददाति न ह्यदृष्टा दक्षिणादीयते पृथिवीम् वा एतस्य पयः प्रविशति यस्याग्निहोत्रम् दक्ष्यमानग्निस्कन्दति यदद्यदग्धम् पृथिवीमसक्ता यदोषधेरप्यसद्यः पयो गृहेषु पयो अग्नियासो पयो वत्स्येषु पयोस्तु तन्मयेत्याह पयरेवात्मन् गृहेषु पशुषु सत्ते अवौ योगै यज्ञस्यार्थे नानात्रजते उभयैदेतस्याक्षदः आक्षति खलु एतदज्ञहोत्रम् यद्दुःख्यमानग्निस्कन्दते यदभिदुःख्यात् आर्तेनाक्तज्ञस्य च गुसृजे तदेव यादृक्े दृष्टहोतव्यम् अथाज्ञाम् दुग्धासहोतव्यम् अनात्यैवात्म यज्ञस्य निष्मरोति यद्यद्दुरस्य स्कन्देत् यत्तदो हत्वा पुनरेयात् यज्ञम् विच्छिन्द्यात् यत्र स्कन्देत् तन्निहद्य पुनर्गृह्णीयात् नैवार्थ यज्ञस्यष्करोति दवा एकस्य यज्ञश्चे यस्याग्निभोत्रेभ्यते यस्मान्तराधावरे रुद्रः खलु वा एषः यदग्निः यद्ग्रामन्वत्या वर्तये रुद्रायपशोरपि दध्यात् अपशुर्यजमानः स्यात् यमोऽहम्बिषिञ्चेत् अनाज्ञमग्ने रामः अनाद्यमाभ्यामपि दध्यात् कारिहपत्याद्भस्मादाय इदम् व्यक्तम् विचक्रमयजवेष्टम् व्यत्याः वनीया भुंसयन्नुद्येत् यज्ञो मे विष्णुः यज्ञेनैव यज्ञकम् सन्तनादे भस्मदा पदममिव विभान्त्यै निधाय तस्याः मनीया कार्यपत्यम् कावयते स्यातम् दोर्ग्योभिम् हिरण्यम् प्रवध्य पुरस्ताद्धरेत् अथाग् तथाग्निहोत्रम् यद्धिरण्यम् पुरस्ताद्धरते ज्यो दर्वै हिरण्यम् ज्योतिरेवैनम् पश्चन्दुद्धरते यदग्म् बोहरत्यथाग्निहोत्रम् प्रणयते ब्राह्मणार्जयुद्धरेत् ब्राह्मणो वे सर्वदाः सर्वाभिदेवी देवताभिरुद्धरति अग्निहोत्र हतमेव हतमनुम् म्रियते अन्तम् वा येष आत्मनो गच्छति यस्ताङ्ग्यजे अन्तमेव यज्ञस्य गच्छति यस्याज्ञमनुभृतकं सूर्योऽभिनिम् रोचते पुनः समन्यजुहोति अन्ते दैवान्ते यज्ञस्वे स्मरोति वर्मो वा एतस्य यज्ञम् गृह्णाति यस्याग्रमणोद्भुतकम् सोऽभ्योऽभिनिर् रोचते वारणम् चलम् निर्भवेत् तेनैव यज्ञम् निष्क्रीड्यते निवा एतस्याः कामयते निगारुकपत्याः वनीयम् यस्याग्निमनुद्धृतकम् सोऽभ्योऽभ्युजयते पुरस्ताः भवेत् अथाग्नि यदाज्यम् पुरस्ताद्धरति एतद्वाग्ने समर्थयतिहोत्रम् प्रणयति ब्राह्मणार्षेय उद्धरे ब्राह्मणोऽपि सर्वा देवताः सर्वाभिरेवनम् देवताभिरुद्धरति पराजे वा एतस्मै ऋच्छन्तेभ्यच्छति यस्याज्यमभ्यतकम् सोन्योभ्यजयति सा केतुना विषताम् एत्यम् देवेऽभिरन्विधम् देवेऽभ्यासमत्तम्यस्वाहे प्रत्यम् निषद्याज्येण विभुयात्ते विवासयते अर्ज्ञहात्रमुपसाद्यादपितो रासीत रतमेव हतमलम् अन्तम् भागेण आत्मनो गच्छति यस्ताम्यजे अन्तमेन यज्ञस्य गच्छति यस्याग्रमणद्धृतकम् सोऽ पुनः समन्यजुहोति अन्तेनैवान्त यज्ञस्य निष्करोति मित्रो वा एजस्य यज्ञम् गृह्णाति यस्याग्रमणधृतकम् यस्याः वनीयेनद्वादे कारिखवत्यमुद्वादे यदाह वनीयमनद्वाक्यकारिहवत्यम् बन्धे विच्छन्द्यात् भ्रातव्यमस्मै जनयेत् यद् यज्ञस्य वास्तव्यम् क्रियते तदा रुद्रोपजनदे यद्वोपमन्दवश्येत् वास्तव्यमद्यमुपासीत रुद्रास्य पशोम् भ्रातुकः आहवदीय उद्वाप्य दारिहपत्यम् वन्धयेत् इदप्रसमञ्जज्ञे अग्निः स्वाद्योदाः स्वजायक्तया कष्टसायगत्या देवेभ्यो हव्यम् वाहतप्रजानन्निति छन्दोभिदेवेणग्निस्वाद्यो नेः प्रजनयति गाहिहपत्यम् वन्सते गाहिपत्यम् वा अन्वाहिदाज्ञे तैरुर्गायते तदनुभजोः क्रामन्ति विहेरे सहसेद्युम्नाय ऊर्जे पत्यायेत्याह पशुभो वैरजिः पशुदेवास्मै रमयति सारस्वतोत्मोत्सव समिन्धातामित्याहमेवै सारस्वतामुत्सवो रिक्सामाभ्यामेवैरम् रथन्तरम् वे सम्राट् बृहद्विराट् ताभ्यामेव वज्रो वे चक्रम् वज्रो वा एतस्य यज्ञम् विच्छिनत्ये पार्थो वान्तराग्नीयादि आहवनेन उद्भाप्य बारिभवत्यानुपूर्वम् प्रभृतम् पदगम्भिरे सूर्यस्य रश्मीरन्त्वा तदा तत्र जेष्ठामरसम्भरयितम् सन्नस्तजमत्यावाचमत्येति पूर्वे नैवास्तयज्ञेन यज्ञमनुसन्तनोति तमज्ञे सप्रथाः अज्ञः सर्वा देवताः देवतादेव यज्ञकम् सन्तनोति अज्ञये पथिकृते पुरोडाशमष्टाकपालम् जङ्गपेन अज्ञवेव पथिकृतज्ञस्वेन भागधेनोपधावने ेन यज्ञेयम् पन्थामभिनयने अनड्वान् दक्षिणा वहेत्यै समध्ये यस्य प्रातस्तवदेशोच्यते बाभ्यन्दितकम् समनम् कामयमालोभ्युच्यते गोमभ्यै भवताभिु कुर्वन्ति हिनस्त्यवे सन्ध्यशीतम् सन्ध्येव खलु बालेतत् यत्सवनस्यादिरुच्यते यद्धयद्वदेषु कुर्वन्ति ैः गायत्रगुम् सामण्डदशस्तोमहेन प्रातः समनान् नयन्ति फलोत्पदेशगुर्वन्ति तेनैव माभ्यन्तिना समनान् नयन्ति कोदश्च मसमनोन्नयन्ते होधानुषकंसति वैज्ञकम् समादधाति माभ्यन्ति ने समने समो निरुच्यते आदित्यन्तरीयमनम् कामय मानोऽच्यते गौरवेदकम् सा भवते अतिरिक्तम् वै गौरवेदम् अतिरिक्तम् यत्समनस्यातिरिच्यते अतिरिक्तस्य शान्त्यै सौर्ये च कुर्वन्ति यस्यैवादिक्तस्य समनस्य कामेनातिरिच्यते तेनैवैनम् कामेन समर्थयन्ति गौरवेदकम् सा भवते तेनैव माभ्यन्दिना समनान् नयन्ति सप्तदशो मह तेनैवनान् नयन्ति भोजश्च मुसमनोन्नयन्ते भोतादृशंसति समादधादि यस्य तुलीरवने सोमो दरिच्येन उेण यस्योक्ते दरिच्येत अतिरात्रम् कुर्मेण यस्यातिरात्रे दरिच्यते तद्वैदुष्प्रज्ञानम् यजमानम् एतत्पशव आसा क्षियन्ति बृहत्सानुभवे बृहद्बालिमा लोकान्ताधार बालिखताः पशवः बृहदेवास्मै पशोन्दाधार <laughs> शिपविष्टवदेषु कुर्वन्ति शिवविष्टो वै देवानाम् पुष्टम् पुष्टे वै न समर्थयन्ति भोगश्च मसुमनोन्नयन्ते भोगानुशकुंसते मध्यत एव यज्ञकम् समादधादे एकैको हि जनता याविन्द्रः एकम् वा एताविन्द्रमभितगम् सुलतः योद्दोषकुम् सुलतः प्रजापजविमायते यज्ञः यस्य ग्रामा नो दन्ताः अन्यतरम् वा एतकम् सन्मो निर्वक्षति ओर्वेणापसृत्यादेव जायत्याहुः ओर्वापसदश्च ये च मन्त्र्याज्ञादि भवन्त्यभिजत्यै मरुत्पदेपदः मरुदा वै देवानामपराजितमायदनम् देवानामेवापराजित आयुतने ते उभयबृहत्यथन्तरे भवतः इयम् वापरधन्तरम् प्राणाच्च बाणाच्च दिवश्च सर्वस्माद्वित्ताद्वे अभिवर्ता ब्रह्मदामम् भवति स्वर्गस्य लोकस्याभिवृत्त्यै अविजद्भवते स्वर्गस्य लोकस्याभिजत्यै विश्वजद्भवने विश्वस्य यस्य भो यागुंसो यज्ञहो स देवताविन्तरे यद्यज्ञष्ट्रामः स्वामः परस्तात् ेदाेद यज्ञवास्य देवता वृङ्क्ते योगे छन्दोभिरभिभवति तम्बोरपि भवति संवेशायत्वापवेशायत्वेत्याह छन्दाकम् समेषम् वेष उपवेशः छन्दोभिरेवास्य छन्दागस्तभवति इष्टर्गोपात्पजामधर्यः खल्वेपोर्बोष्टो क्षीयते प्राणाबाणो मृत्योमित्याहानेव श्रयते बाणापालो मामित्याहम् प्राणापानो जहितः आ किम्वा एते नयन्ति एताम् दीक्षाणाम् प्रमीयते अयत भवतामवेधाम् लोकस्यात् आहरदवेदि ब्रूयात् तम् दक्षिणतो भेद्यै निधाय सर्पदाज्ञ्या हिभ्यस्तयोः यम् वे सर्पदो राज्ञी अस्यादेवैनम् परिधरते व्यर्थन्तदित्याहुः यत् होतात्मधमप्रायीनामे सर्पराज्ञीनाङ्गीर्त्रेत् उभयो देवेन लोकयोः परिजनति अथोऽ अथो नेवास्मैपदे पृष्पलयन्ते लोकाः येभ्य देवेन लोकेभ्यो सुपते पृष्पनः पर्यन्ते षट्सम्पद्यन्ते षट्वा ऋतवः ऋतुभिरेवेण धुपते अग्नायोगम् शुपमधयम् कुर्वीरन् रसन्तरथा मैषाकुम् सोमः स्यात् आयुरेवात्मम् दशते अथोपात्मानमेव विजहतोयन्ति असुर्यम् वा एतस्माद्वन्नम् कृत्वा अथवो वेद्यमपक्रामन्ति यस्य लोपो विरोहते त्वाष्टम् बहु रूपमालभेत अष्टावे रूपाणामीशे यदेव रूपाणामीशे सोऽस्मिन् पशोन्वीर्यम् ो दैर्त्यमपक्रामन्ति आत्मनिम्बा ये क्लेयन्ति एषाम् देवनामग्निद्वायते राहवनीयमुद्वायेत् व्यक्तम् मन्थेत् ऋच्छुञ्जात् भातव्यमस्ते जनयेत् राहवनीयमुद्वायेत् आग्नेयेधरेत् याग्नेयेध्वरुद्वाजेन गारिहवत्यादुद्धरेत् यद्गारिहवत्य उद्वायेत् अत एव पुनर्मेत् अत्रवासदिनयेत् यत्र खलु वेशीन उत्तमम् पश्यन्ति तदेन मिच्छन्ति यस्माद्दालोद्वायेत् प्रियेवीम् तनुवासमर्थयति दारिक्यम् वन्थति दारिकमत्यो वा अग्नेः स्वर्जनयति यस्य सामोपदश्चेत् समर्णकम् मेधा विच्छिद्य प्रियदा सूनुयात्न्य साममेवाभि शृणोति सोमम् जुहोति सोमस्य वाजमानस्य प्रियातनोदर्क्रामर्णकम् हिरण्यमभवत् यत् सुवर्णकम् हिरण्यम् कुर्वन्ति तदुपासमर्थयन्ति कस्याक्हरेयुः च तः प्रायश्चित्तिः यस्य क्वेदमपहरेयुः आदाश्चनि चाभिषुयात् गाह्यक्रेदकम् सोममाहरत् गः परापदत् तानि भाल्गुणान्यभवन् अशोमे भाद्गुणानि यदा राजागश्च भाल्गुणानि चणोके सोममेव राजानोके श्रेण प्रातस्य वने श्रीनात् एकाङ्गान् दक्षिणा पुनः स्वामन्द्रैयामिच्छति सैवप्रायश्लिक्तिः भ्यो वादेव देवताभ्यः सर्वेभ्यः पृष्ठेभ्यः आत्मान वा गुरदे यस्तत्रा गुरदे यदा वाङ्कल्वे गुरुणः यावदस्य वित्तम् सर्ववेदेन यजेन सर्वपृष्ठा सुम स्यात् सर्वाभ्यदेव देवताभ्यः भगवान् स्वर्गनः अवित्रेण विशलिः यस्पो नाजपुनादमादेव विश्वयवः यादवेन पवित्रवद् अवित्रेण पुराहिमा शुक्रेण देवनेत्रे पवित्रवर्तिः अग्ने विदधवन्तरा पुलीमहे न्देव सवितः पवित्रेण सवेन च इयम् ब्रह्म पुणेमहे वैश्वदेवे पुणतेगाद् यस्ये वक्मेस्तनवेदपृष्ठाः अजा मदन्तस्व समाजेषु अयज्ञस्यातयोरयीणाम् वैश्वानधर्मे मयसापयोभिः पुणीताभिः बेयन् देववह्मभिः अर्गेदक्षये पुहिमा येन देवापो दिव्यङ्कशः येन दिव्येन ब्रह्मणा इदम् ब्रह्म पुणीमहे यः पावमाने लब्ध्येतिभृतगुण्डम् सर्वगुण्ठपोदमस्मादिदम्मादना पापमाने योजम् तस्मै वयस्पतेः सम्भृतो ब्राह्मणे समर्धयन्तु नः समाभृताः पवित्रेण आत्मानम् पुनर्तेसदा तेन सहस्रधारेण पापमान्यर्पुणन्तु वा राजापत्यम् पवित्रम् शतोद्यामगं तेन ब्रह्मविदो वयम् ओदम् ब्रह्म भगेमहे इन्द्रस्वने सहमापुनादो होमस्पस्त्याभरणस्मि च मातवेदामूर्दयम् चापुनादो प्रजा वैश्रमासद्यमाना अजुग्वतेः देवा अपश्यन्तमसङ्कृतस्य पूर्णग्यस्वथा तमुपोततिष्ठन्तमजुगगुः र्धमासवोर्जमवारुन्धता तस्मादर्धमासे देवायुज्यन्ते पितरौ पश्यन् जमसङ्घदस्य पूर्णग्रस्पथाम् तमुपोदगच्छन्तमरिभवः केन मास्योर्जमवारुन्धतामासे पितर्भ्यः क्रियते मनुष्याः अपश्यञ्जमसङ्घदस्य पूर्णग्रस्पथाम् अमुपोदतिष्ठन्तमजुहभुः एनद्वयेमोर्जमवारुन्धत तस्माद्विरह्णो मनुष्येभ्यमुपः क्रियते प्रातश्च सायम् च पचवोपश्यन्तमसङ्घतस्य पूर्णग्रस्वधाम् अमुपोदतिष्ठन्तमजुहभोः एनद्वयेमोर्जमवारुन्धत तस्मात् रन्धः पथपः क्रियते प्रातःसङ्घवे सायम् असुरापश्यन्तोर्जमवारुन्धता ते देवा अमन्यन्ता अमीवा इदमभूवन् यद्गयग्स्म इति तगेतानि परासुराः यद्यजते यामेव देवावोर्जमवारुन्धत तान् तेनावरुन्धे यत् पितुर्भ्यः करोति यामेव वितरवोर्जमवारुन्धत तान् तेनावरुन्धे यदावसथे न गंहरन्ति यामेव मनुष्यावोर्जमवारुन्धत तान् तेनावरुन्धे यद्दक्षिणान् ददाति यामेव पशवोर्जमवारुन्धता तान् तेनावरुन्धे यातुर्मास्यैर्यजते यामेवासुरागोर्जमवारुन्धता तान् तेनावरुन्धे भवत्यात्मना परास्य भ्रातुव्यो भवति विराजो वा एषा विक्रान्तिः यर्चातुर्मास्यानि वैश्वरे वे वेनास्मिन् लोके प्रत्यतिष्ठते वरुणप्रकाशैरन्तरिक्षे स्वाकमेधैरमुष्मम् लोके एषहत्वावेतत्सर्वम् भवति य एवम् विद्वागश्चातुर्भास्यैर्यजते अग्निर्वावसंवत्सरः आविदितः परिवत्सरः चन्द्रमाविदावत्सरः वायुरणवत्सरः यद्वैश्वदेवेन यजते अग्निमेव तत्संवत्सरमाप्नोति तस्माद्वैश्वदेवेन यजमानः संवत्सलीनागस्वस्तिमाशा स्तगित्याशासीत यद्वर्णप्रघासैर्गिजरे आदित्यमेव तत्परिवत्सलमाप्नोति तस्माद्वर्णप्रघासैर्गजमानः परिवत्सलीनागस्वस्तिमाशा स्तगित्याशासीत यत्सागमेधैर्गिलदे चन्द्रमसमेव तर्हि तावत्सरमा आप्नोति तस्मात् साकमेधे विगीडमानः यावत्सरेणागस्वस्ति मासायित्याशाधीत यक्पितरि यज्ञेन क्रियते देवानेव तदन्मवस्यति अथवा अस्य वायुश्चानुवत्सरश्चा प्रीता उच्छिष्येते यक्षुणा शैलीयेन गिरते वायुमेव तदनुवत्सरमा आप्नोति तस्माक्षुणाशीरीये न यजमानः अनुवत्सरेणागः स्वस्ति मासाय सम्वत्सरम् वा ये चेत् सतीत्याहुः यश्चातुर्मास्यैर्गजतयि येषत्सरमाप्नोति यगेवम् विद्वागश्चातुर्मास्यैर्गजते विश्वेदेवाः समयजन्त तगेतम् लोकमजयन् यस्मिन्नग्निः यद्वै एष्वदेवेन गजते एतमेव लोकम् जयति यस्मिन्नग्निः अग्नेरेव साविध्यमुपैति यदा वै एष्वदेवेन यजते अथ संवत्सरस्य गृहपरिमाप्नोति यदा संवत्सरस्य गृहपतिमाप्नोति अथ सहस्रगाचिनमाप्नोति यदा सहस्रगाचिनमाप्नोति अथ गृहमेधिनमाप्नोति यदा गृहमेधिनमाप्नोति अथाग्निर्भवति यदाज्ञर्भवति अथ गोर्भवति एता वै वै एश्वदेवस्य मात्रा एतद्वा एतेषामम् अतो तो वा उत्तरा निःश्रेयागुंसि भवन्ति यद्विश्वे देवाः समयजन्त तद्वैश्वरेवस्य वैश्वदेवत्वम् अथादित्यावरुणगौराजानम् वरणप्रभासैर एजत स एतम् लोकमजयते यस्मिन्नादित्यः यद्वर्णप्रभासैर्यजते एतमेव लोकम् जयति यस्मिन्नादित्यः आदित्यस्यैव साहित्यमुपैति यदा जित्यावरुणगौराजानम् वर्णप्रघासैरेजत तद्वर्णप्रघासागाः वरणप्रघासत्वम् अथ सो मो राजा छन्दाकम्सि साकमेधैर्यजत स केदम् लोकमजयते यस्मैश्चन्द्रमा विभाति यत्साकमेधैर्यजते एतमेव लोकम् जयति यस्मैग्यश्चन्द्रमा विभाति चन्द्रम स एव सायुज्यमुपैति सोमो वै चन्द्रमाः एषः ते साक्षात् सोमम् भक्षयति यग एवम् विद्वान् साकमेधैर्यजते यत्सोपश्चराजाच्छन्दागम्सि च समेधन्त तत्साकमेधानाकम् साकमेधत्वम् अधर्तवः पितरः प्रजापतिम् पितरम् पितयज्ञेना ता यजन्त तयेतम् लोकमजयन् यस्मिन्नृतवः यत्पितृयज्ञेन यजते एतमेव लोकम् जयति यस्मिन्नृतवः ऋतूनामेव सायुज्यमुपैति यदृधवः पितरः प्रजापतिम् पितरम् पितृयज्ञेना यजन्त तत्पितरयज्ञस्य पितरयज्ञत्वम् अथोषन्त्र्यम् भगेर यजन्त प्रथे महीति ततो वीता प्रसन्तम् यद्वाकस्त्र्यम् भगैर यजते तथज प्रजजापशुभिः अथ वायः परमेकुंसुनाशीलेयेन स एतम् लोकमजयत् यस्मिन् वायुः यक्षुनाशीलेयेन यजते एतमेव लोकम् जगति यस्मिन् वायोः वायोरेव सायुज्यमुपैति ब्रह्मपादिना वदन्ति प्रजातुर्माश्रजा न प्रमीयता इति जीवन्वाये धर्तो नप्येते यदि वसन्ता प्रमीयते वसन्तो भवति यदि ग्रेष्मे ग्रेष्मः यदि वर्षासु वर्षाः यदि शरदि शरद् यदि हेमन् हेमन्तः ऋतर्भोक्तासंवत्सरमप्येति संवत्सरः प्रजापतिः प्रजापतिर्वावेशः ओ